र्मके पशुकामयीन्द्रा वै पशभीन्द्रमेवस्येन भागधयेनाधावयितै पशुवं प्रयच्छति पशु मानेव भवति फलप्रमदित्वा देवात्मै योनेन पशुवन् प्रजनयतीन्द्रायेन्द्रियावचे परोमेकादश पाठं नर्मके शुकामयीन्द्रियं वै पशभीन्द्रमेवेन्द्रियां भगस्येन भागते येनोपधावति स एवात्मा इन्द्रियं वशोन्द्रयच्छति वशुमानेव भगवतीन्द्राय कर्मवदे पुरोकादशकपालन्य ब्रह्मवर्तत कामा ब्रह्मवर्ततं वे धर्म इन्द्रमेव कर्मवं केन भागते येनोपधावति स एवास्मिं ब्रह्मवर्चसं तथा ब्रह्मवर्तस्येव भगवतीन्द्रायार्कवदे पुरो जगमा सञ्जर्मकामोत्को वे देवानामन्मत्तेन भागज येन सगेवात्मान्मयच्छन्नाथये भवतेन्द्राय धर्मवते पुरोदाचमेकादशगपदर्मजिन्द्रायेन्द्रियावत इन्द्राया भूतिकामो यदिन्द्राय धर्मवदे शर्मपतिशिलदेवा येन्द्रियावतात्मानमेवास्यतेन करोन्द्रायाश्च भूतये पाद्य प्रतिपत्पति भवत्येन्द्रायां भोम च पुरणाशमेकादशकपालन्यकृत्य पात्मनागे तस्यात्मारुंहेन्द्रमेवारुं भामृष्टेन पादावयवेत्मनागुभं च न्द्राय वै वृथाय पुरोडाशमेकादशपालं निर्ववेद्यं स्वाभिन्दाक्षाणि पाभितमेन्द्रमे वै पृथग्न भागे जेनापसावश एवयत्रात्रमेकादशपालं निर्ववे यतो वेन्द्रमेवन साके येनापसावश एव इन्द्रायाष्टाश्वमेधवदायमेकाशपाल्यं महायज्ञो ने महायज्ञस्याञ्चविन्द्रमेवास्तास्वमेधवम् वैतस्य नेनोपधावृथमेवात्मान्त यज्ञञ्च वयक्तिपरिणं महायज्ञो न मते यान्दुलमेकादशवानगामैन्द्रभेदान् पृथज्ञश्च न पाकते येनपधावतदेवास्ये सुजातानुकाञ्जला विके गच्छनागुर्वीं राणी वेदनानी देवते राणीमेवन पाकते येनपधावधितैवाय रागं ृष्ट दिवन्तजानतीर्ध्ये संलक्ष्ये प्राभिस्त्यमे हस्तदोमन्तजाुतैः सङ्गलादेवेन न्यायमभिणीयकाव्यन्द्राय मन्यमते मनस्पदे पुरोलासने कालकालं जल्पदे सङ्ग्रामेण संयस्त्रियेणवे मन्य मनसाधुं ग्रामं जयतेन्द्रदेवमन्यमन्त्रं मनस्पन्ध्युत्वेन सागते येनोपधावधि यं मन्यं मनोदशान्द्रङ्गाममेपामेव निवेद्यो हतमना स्वयं पावयि हस्ता देतायि वा तमक्रान्तान्यैकहतमना स्वयं पापयिन्द्रमेव मन्यमन्त्रं मनः सन्तेन भागधे येनापथापधिर एवन्दिन्द्रियं मन्यं मनोदधा जिनहतमना स्वयं पापीन्द्रायधाय पुरोडासमेकादश निर्महेद्यः कामये प्रधानकामानय प्रजाकृन्द्रमेव दाताय जन भागधे ये मा प्रदावदिशयवास्मकामा प्रजा कलोधानकामास्मे प्रजा भवन्तिन्द्राय प्रदात्रय काल्यर्मेस्मै प्रत्येन्द्रमेव प्रदाताय येन भागते यै माधावशये दापयतेन्द्राय पुत्राण्यै पुनाथमे जगमानवाप्यमानन्द्रमेव पुत्रामान युक्नसापनन्त्रायते नन्द्रवेत प्रजापतिमुपाधा मैन्द्रमेणाजगमानन्य प्रजापतिं परनुपात्सेन्द्रस्मादेतमेन्द्रमेकादश यम् तथा पुरोन भाज्या भवच्यावज्लो वेदक्वै वज्लो भूत्या भवत्येव ज्ञा वेत्सवैका दुर्गमाभितरन्तर प्रत्याज्यभागाश्चाद्वारवेका दुर्गमा भित्तव यज्ञो देवताभि यज्ञेन याभितलदिवरत् प्रत्याज्यभागा भवनिवाग्ने सरस्वती वागैवेन अभितलदिवारः तस्य चलद्भव देवानां ब्रह्मणैवेन अभिल जिपदिवै परस्यादभितरन्तमभिलं जिद्वेद्य प्रे्यायैवताभिरेव देवता प्रथित यज्ञेन यज्ञं वाजावाजं ब्रह्मणा च मध्यताश्च न पुरश्च न निर्वदे यज्ञने सदादेवला यज्ञष्णुं च न भाग येनोपधावता देवास्यै यज्ञं प्रयच्छतमुपैन यज्ञानमहत्याज्ञा वेष्टमधृते जलं निर्मदे कृष्णामाग्नेर्वेककृतामहृत्या विपष्टं यज्ञश्च देवाज्ञं जैव विष्णुञ्जस्त्वेन भागय येनोपधावता चक्षुषणा एव भवतिपना देवास्मै चक्षुजनयति हृदे चक्षुष् स्मै चक्षर्वगन्धैन्द्रियं वेदे भ्रातं येनाश्चेन्द्रियं यश्च प्रवदन्ति वाचाभक्तारिन्द्रियं भक्षागमानन्द्र्याकारागाकमाक्षरागायत्रे गमयम् त्याज्ञाने सवमेकादशगवाल जन्म्यं जिनश्चाच्या एकादशगमाला भवत्येकादशाक्षेष् माध्यं जनगुं शमनं माध्यंजिनदेव समनं द्वादशगवालं जन्म यथवनस्याले प्रचक्षरो यद्वादशकमालाभवद्वादशाक्षराय वेदाखमन्त्री यथवनेवदेव्यं वाचनाजम्ब्रह्मणा ब्रह्मकमाले रेवचन्दागच्छात्मजवनाभैस्तव नायमेकमालन् ै कालैपादो भागम् यस्य अचानमध्या एकैषैतच्चैकजपाले कुमलहत्याम् ैकीतगुम्फ माधौ चरण्डु च माधौद्रं चरणदेशस्यैव duru dravya lakshyapo namo sattakshya deva prana laya samaram che paristhitaya adeya bramhala dalas parigih chaisra deeshkara sattah dukham adilam madhyam bhavatyaam prakahaval jeyam adem deva vardham vartam tat sarvam bhavatyaam bramha vartam kriya radikya bhavet bhava jastam ma bhavitari mani maniredau dha yera bodhaya sattake gamana namata matakatta vedajam vedajam ौष्णं चलं नर्मदौ वे देवदया पुरुषायष्णाै देवदयान् प्रजनयिताज्ञ प्रजां प्रजनयति विन्दने प्रजागम्भानां आरोग्यं च चन्द्रं नरवकैः विदनम ी देवतया पुरुषगे देवतायै निष् रुद्राया कृतसाक्षरितश्चरीरीमात्र ञ्जलयि <mí> ते चार्थ त्याः ध्यासङ्गत्वेन धातुर्यते हैन्द्रमेकादुर्य वदकं लट्कवारं लाङ्गराकं मयन्द्रं जयवन्दश्चस्य महाञ्जयं अनावधावति लगेवास्ते वदरातां प्रक्षन्तेद्रौ देवोत्सावनीयं हेन्द्रमहिष्रे निबाह्यं भक्ते महासंकार्भवत् सदक्खितेवक्खगपावा मार्जावरनिदक्खगनागे नरसर्वेषः देवआत्मयेदरातां नवरुन्ते नोमवत्स्याना आखादेदिदिमेधात्ममहारत्ना क्षत्राय निग्रहं कब्दामित्येन्द्रस्याया न ब्रोहे शास्त्राव्यप्रोयाम् मरुद्वयमादस्याम् मरुद्राम ब्रोहे शास्त्राव्यप्रोयालिन्द्रञ्जय स्वभारते क्षन्तामयकल्पीय भारते कल्पयतिकादशगपालन्यं द्वादशगपालं ग्रामकामयन्द विश्वाविष्टा भागते येन न्द्रवक्षयेन्द्रस्यापदायस्तदेवत्यावज्येन्द्रस्य पयच्छाविन्द्रेण नैवात्मा उभयवस्त्वजातान्वयग्रन्थात्मिपाय च गोदयं वा भवदक्षिणाैकृत्युभ्या ृथ्यै वेदयसजाता पृथ्यज प्रियङ्गता प्रलुवे देवदयात जाता मरुतगेवाय मांसमानाभवान् भाष्याभवदेव जयश्यादृष्पदेव भो नवम् जयदेवान् जयदेवामिपन्ते चेत्यामाणात् प्रधान्यक्षुभित्रेन्द्रमलनाधिक्येयस्त्रप्रजापत्तमेकयासम् ्यायाजय लग्नरे पुसुमदे पुदोमक्षागपानम् जलवपत्रमाय शुद्रे शुलिन्द्राय मरुत्पदे पुनोराजमेकादशकपानम् करुणाया नित्यपदे शलम् करोध्येष्ठायाभिमयादयस्तमाणे विपस्यास्त पुरोणायमत्यागमानम् जन्मदे सोमाय रुद्वादे फलेन्द्राय मरुत्पदे पुरोणायमेकादमानम् मरुणायादित्यवदे जगु इन्द्रमेलैनम् भोजम् जयेत्यागतमानापितञ्जाले पिक्षमानानाम् भवति पुत्रापितरगुंसमातरगुंस सो न धानागुम् दाचार धन्यपालि मोदये रामभागस्यानाम् क्षेत्रम्प्रति मन्था सोमासकुभेतुख्यापल माथलश्स न्द्रमक्षान्तयम् <Sess> <Sess> <Sess> क्षणामार्यंसानि वलिनानि विद्वानि क्षय श्रेत्मतपोहवेदभ्यलोकत्वमित बभूताराजुम् वेदमम् परे नेहिरस्वतः ्रह्मनागिवसहस्राधनोऽपि अज्ञमादधानाग्मा निनो मध्ये बितन्नकोदंद्धनोर एतलाकुषिरन्यं। अच्या रिक्मोर्णोर्णत्तत्तावः। उजय उस्तंतत्त्ति वादर्वेण जेने जागने। उतना उस्तमोर्या उप्चेक्रपद्पगरिदकत्तो जगाभरा। आयो अधन्मरीना यवत्तत्तो अश्यानाम। � त्या हरिमशस्या त्यादित्य नैव भोतिं गमयन्ति भवत्यैवादित्येभ्यवरुद्धावध्यमानो वादित्या वा अपराद्धार्या अवगमयिता त्यामेव पदमानुजीयं स्नेहाज्यमनुमन्यवाधिकं कुरुदह्यमाह प्रदास्तुदा सत्यं ज्ञानं अनन्तं ब्रह्म विद्यां वा देवैर्विज्ञक्त्वा विश्वजं यदेनैव नर्गोऽस्य हतवक्त्रस्य दिगम्बरं ताम्यवामीच्य सत्यग्रहात् विहेना हरे सूक्ष्मदृष्टस्तालितविग्रह समादित्यञ्चनिर्पयित्याकजा नित्यवगतात्यवगतवदत राष्ट्रमित्याहुर्य कृतास्त्युत्तम्य खे एव विषन्तराष्ट्रञ्चापगच्छ दिवदिनामगच्छ दिवमहामारिच्य द्वभागं निर्पवाम्यामस्मादमुख्ये विश्ववगन्तौ निर्मदे भागदेयं चे दिनामगच्छेखान्मयोध्यमेधायामुपहन्या जिवमहामारित्याधान्यामस्माकम् े विसर्वगन्ता एवैनम् भद्रवीरामिशमपमयम् देहविनावगच्छादित्यञ्चलम् निर्मवेपि मयो खालम् सन्नक्षेतन मरुद्यमे कावेक्षा भवन्ति मरुतान्द्राणेभोजधैव शमवगच्छति सप्तभवन्ति सप्तजनामे मरुताक एव शमवगच्छति हेदा वै मृत्योरविभयुक्ता प्रजापतिमपाभावञ्च एतां प्राजावत्यागं सदकर्तनाञ्जलवच्चैः अवदमदभां प्राजावत्यागं सदकृष्णयात् प्रजापतिमेवस्य न भागते येनाय तथा सर्वमाय षडकर्तना भवति सदा यः पुरुषे त्यायोगे हृदमृतम्यमानुष्ठैवामृतञ्च समे चत्वारि चत्वारि येच्छं तस्मादेतनुं सौर्यं चलण्यवञ्च नैवात्यं वृतमदर्य ब्रह्म चषामत्यास्मादेतमुं सौर्यं चलण्यृपकमेवादित्यध्यस्य भागत येन अत्यं ब्रह्म वक्षदं दधा यद्ब्रह्म वक्षेभवत्युभयदा भवसौ भयदगेवां tell us plan ष्टाकपालं जरूपं कालजकमालं भौम्यं विन्दय हिरण्यं भवत्या ज्ञेयं वैहिरण्यं यं च नैवते रात्रभवदितविप्रदोदयेवैनव्यते भोप्रभक्षत्या नैवेन व्युन्दैन्यं न ीत्येन हिरण्यं विन्दत एतामेव यन्द्रिण्यं विद्वानन्द्रियेतरेतादेवयुक्तवेद्यन्दस्य ज्ञेनो भवत्या ज्ञेयं वे हिरण्यञ्जैव हिरञ्जन्दे नैवेन भवति सिदप्रभत एवेन भोम्ये शरभवक्षाम्बा एतन्नक्ष नस्सात् सत्या नैव एणब्जिन्दयेन तत्त्वत्त्वम हि साधवस्तमे कन्या चत्थै मेरो मित्रं न्याचयेत् सोऽवदवमेत्त्र चावाका भवन सप्रकापदेवकारोत्तः पयेन मुसालेन्द्रस्य माघं तव निरवक्ते रेवाच्छन्देन्द्रयेदुं सोमसंधानं दिवारे जगन्दिने अनसोममेते मध्यदेयत् श्च वाकं चलं नृपवेदयुं स्वामेषमवेषामरुन्धेन्द्र भवतेन्द्रियमेवमकेशमवरुन्ध्या भवत्येमत्साक्षादेवन्द्राय प्रदाच्य पुराजनेकादशगमानं वशुकामाचने वृद्धानिन्द्र प्रयच्छिवसुकृतमापधानाभवं चेतद्वै पशो नागौ लोपकौ लोपेणैवशो नवं जै पञ्चगृहे कम्भव ये प्राजाभ्यम् भवत्यावे पदवः प्रजापेनात्ये पदवम् प्रजमेत्यात्मा वे पुरुडक्षमभिगन्मभ्यो चात्मानमेवनौ प्रबुधा च पञ्चौजाच्यानुवाच्यवधक्तां तत्पुरुषम आत्मानमेव निर्गेयपशो नवगुन्धे क्षापालमहेन्द्रमेतां <laughs> सौल्यञ्जलेवा यज्ञत्यामेकामित्यन्द्रेयमत्याङ्ग्रमेकादश सौम्यं च लञ्जा भवति चेदा भवतेन्द्रियरेणा किञ्चनदधारिक सौम्यात् ब्रह्मवच्छा ज्ञेयश्च सौम्यस्तरेन्द्रे समास्ने यै मात्यं ब्रह्मव ेवदेवभाकृत्य भागध यैना समर्थयज्ञेयमत्याे भागध यैनापधामेव ्रह्मभवश्चैव मार्गश्चनमायमालिने मार्गञ्जलं चैन तथा भाजिनन्दधा भवति ब्राह्मणप्रत्यदेकान्तजकपालव्यमकर्म ब्रह्मणे गुप्तैनभागोपधापतिषये भवति चक्रामय दत्तम् मन् विषं विनाशय युराज्याभाग्यम् मन् नैवनाशयम्यप्रवेत्मनमेव यम्ये चलन्यप्रवे च कामय प्रधानकामाने प्रजासेभ्यलोगा आदित्य खलु वेददानकामा प्रजालकामास्मै प्रजाभवन्ति नियम्य फलन्य कामय स्वस्य जनदामि यामित्यलोगा आदित्य प्रजापदिवपाधावत्तस्वादेत मेन्द्रमान् लोकमेकां विगवानवर्त्य नैवे नमग्रं देवतायां परिगणयत् बुद्ध्रवती पुनः देवे नमग्रम् परिगणय ज्योराजन्य आनुजाबलस्याधेतमेन्द्रमान् लोकमेकाल नमो भगवते नमः वत्सेन भांगदेय महावतारं दिव्यये नमः शरणं समानानां परिणयति वस्त्रवरे वस्त्रवियाम् ेवे नमक्रुण्णमानाम् बुद्धमक्रवीराज्ञानुभादेवे नमग्रम् परिणयत्यानुशोकम् च देवतामध्ये प्रजापत्युम् शक्तिभितरः राज्ये तथा राधा पुनरगच्छन्तान्वये सा पुनरयाचरक्षौगेष्ट्याम्येत् सहस्त्यै पुनरेवै लक्ष्मः तत्राजानक्ष्मः यक्ष्मत्रयम् ेवन्मवेदनेन चलं नैलं नामा रामादमुपयक्ष्मेवमादित्यं चलं जन्मवेदानि भवत्याजेवा चिन्तया चिलमादित्याेव ेन्द्रमधिराजविन्द्रजानन्दतो इञ कामये सत्ता प्रधावन्दाय न्द्रोधिराजो सालिन्दराजिमानेव लोकान्धानेवास्मान्नं प्रयच्छन्त्यं नाटकेभवन्त यत्रया त्रया भायत्रयराजालम् चित्रै लोकाले लोकानामास्या उत्तरमुत्तरोध्यायाम् भवत्येव हिमे लोकः समर्भेगमयन्नक्षितम् वस्तारम् वृत्या eva sarasanyattaha dum tad evah varaharam tan le ra padalikhya na asaraam vai chamaram cha bhindyam ketyoga जापत्तमेतया सर्ववृक्षया या जरक्तयेकास्मिन्निन्द्रियम् एत्यकामो येत्यकामत्यामेतया सर्ववृक्षया या जनेतामेव देवताश्च नोपधावयितामेवास्मिन्निन्द्रियं वेयन्दश गेरिन्द्र य नर्मपतिवाग्ने च यत्र देवावरुन्धय गिरीन्द्राय पालकाय देवे द्रक्षते यस्तदेवावरुन्धय गिरीन्द्राय मे गोपाय देवदयुवस्य यत्र जयवामरुन्धय विजिन्द्राय दैवतायक्षय रामधरे भवन्तं समन्त अत्रर्थादक्षिणाभिहर्ता एतयैवैदेतापि नश्च मालेता चेद्वादेवता अन्यपदम् जगन्तु एवाश्च मनुष्याः रचनौरेकौरेण कृक्षुरञ्जनया तत्त्वा एतावत् चन्द्रमपदर्जय ध्याजस्पदैव पुलोनातमच्छाकपालकम् सौर्यजलमग्नय ध्याजस्पदेव लोदाकमच्चाकपालन्तयेना किञ्चक्षुरथाक्षुष्कामत्या तत्त्वा एतावत्यञ्जर्वय ध्याजस्पदैव लोदासमच्छाकपालकम् धौर्यञ्जलमग्नये र्यश्च देवा किञ्चियं चेन भागधे येन चक्रक्रिया ज्ञेयो क्षुभिनगम् जातम् देवानामुकगात्रे गङ्ग ब्रह्मा देवाय नमः राजा केशव रावं धीर अक्षरा स्तव जिन्द्रोदि ब्रह्मा गं त्वाये भoja समुद्रे अक्षरा स्तव जिन्द्रोदि ब्रह्मा गं त्वाये भoja समुद्रे अक्षरा स्तव जिन्द्रोदि ब्राह्मण नमः राजा केशव रावं धीर अक्षरा स्तव जिन्द्रोदि ब्राह्मण नमः राजा केशव रावं धीर अक्षरा स्तव जिन्द्रोदि ब्राह्मण नमः रे बाधामनदत्ताहङ्कामये हृदाता महाङ्कामयङ्कालो हृदाता मामन स्वाहावैश्वरे ेव भागी यच्छम् विदयः परिहीयम् एवावरुध्येतये न न्नवमेतमभवर्चिन भवत्यः प्राणो विपक्ष्यते चाम्यः प्राणोदित्वाहेन्द्र प्राणोभिस्यते चाभिग्य प्राणोदिताः मित्रावणोभिपस्यते चाल्यया प्राणोदिताः वित्वेषाम् सेवानाम् रुसबन्धानिन्देन दत्ताम् प्रयताम् मरुद्भिः विश्वपर्यवशब्दत्वेन यते श्चेवान्यान दैववक्षादृतवाक्ष देवाकमेव नद्याया कन्याश्रयणस्य वेद्यमात्र क्षियता <Sess> य स्वां सव न प्रतिभिय स्वान्ते अस्वायुधाय पन्तम् करोगि भोमाय स्वान्तर्यज्ञाय स्वान्त दक्षिणाय ब्रह्माय त्वच्छद्राम् मणेराय त्वद्यवाय पन्तस्यैवजनवितराय पन्तश्च वधराय स्पन्दश्चनन्तम् करोगी ीरं गच्छयेन वरुणपाशेन गृह्णादि सरस्वतीं वा गृह्णाविष्णमात्मा गच्छज्य कामय रि यज कामयाये स्याद्यो वा कामयेत सर्वमाय गामि तस्मागेता सर्वेताम्यैकमट्टाकपालकं सौम्यं चलं वाशकपालकं सारस्वतञ्चरुम ेत्तममेकादशकपालमग्ने देवास्य वीरं यत्क्रेनादितो मातृं वारुणेनैवेन वर्णपाशान्मुञ्चलिवारस्वेन वाचं तथा यज्ञे सर्वा देवताभिस्तो देवताभिश्चैवेन यज्ञेन च विज्यकृदयवेता सद्भवति जीवसेवमै सन्नवयेन रूपमेव श्रीहन्महिमानं जात चिनो प्राणो मेदेवानाम् हृदौ साध्यामेवात्मै चलं प्रलोकेन्द्रस्य प्राणो हेत्याहेन्द्रियमेवाख्येन दधाति मित्रावणोभि प्राणाभाना वैवास्यन्यनैकाञ्च प्राणवेत्यामेवास्येतेनृतस्य धारामृतस्य पन्था नित्याह यथा विमानेन स्वास्त्वमेन प्राणमेवास्य तेन भार्य बृहत्त स्वास्त्वमेन नेदेन तथा पर्याहुर्यावन्तयेवणं विषज्यन्ते ब्रह्म न हस्तमं भारव्यपर्याहुरे तथैव यजमान आयुन्दधेदेवदश्चिरण्यानं निश्चिभक्त्यायुगै कृतमृतम् हिरण्यमनुदा देवायुश्चिपति तदमानं भवति कृताय पुरुदक्षतेन्द्रियायुष्येदेन्द्रिये प्रतिष्ठत्यमामये जन्म त्या समृद्ध्याय मम ज्ञाय देवस्य दे गृहे स्वाहाय देवासिन्दश्च तथा दिनिश्च देवा जलदश्च द्रियसाधृत्या जलदश्चर्याय पाणिजृहस्तम् ब्रह्मा चेते दत्तयवान्नाय दधति सर्वमायु देवे रुणायाश्वमयगच्छस्वान् जयदामाक्षप्तं भक्ततोणभाषासमुच्यत ग्रन्थादिग्रन्धाद्यावस्तान् ेन वरुणपादान्मुञ्चति च दुष्कपाला भवन्ति प्रयज्ञादे भवनाध्ययत्मा देववरुणपादान्मुच्यते यज्ञमलं प्रयज्ञा वेद्या शौर्यमेकपालमृगे रमुच्चारं कुरुते त्वामृतमये शक्यै वरुणसाक्षादेव वरुणमलवे त्रीञ्चलम् पुनरेत्य निर्मभेदत्रिनो निर्मा स्वमेवै न योलिङ्गमयविरलेन गो शान्तमुपतिष्ठते ध्यावामिन्द्रावरुणाय दत्या धनोत्तरे अमलवं हता मुञ्चति ज्ञावामिन्द्रावरुणायत्या रक्षस्या तेजस्या धनोत्तरे अमलंभता मुञ्चति योगामिन्द्रावरुणा मध्यमोक्षामस्तं वा देशेना वैजययोगामिन्द्रावरुणाद्यपात्सुमृतृक्षेभ्यो नृत्रामस्तं वा देशेना वैजय इन्द्रो दृत्ये निर्णया ृन्द्रादियप्तात्मना गृहेतो भवत्मना गृहे त्यास्तस्मा येतान्द्रा तरुणेन्दयस्यायन्द्रियं दधारुणयेन परमपाशान् वञ्चदिपयस्या भवतिपयोमायेन पाक्राक्षेत पात्मना गृहेतास्त्रयस्या भवतिपय एवाच्छिन्दया दधा तिपयस्यायां पुर त्यात्मन्तो हरिणस्तमो हरिणात्यारुणा वध्यमोत्तम् वा वेदेणा वेदैत्या हरिक्ष्या एवं पर योगानिन्द्रावरुणा त्याहेन्द्रम् विश्वतत्पयेन्द्रन्ननः विश्वतो रक्षालायः या चेधामायस्त्वे स्वप्तो मातवेरः किमकुम् न वितत्तेन वच्चो माम् च सङ्गेशो वा विलकुम् सुमे भोक्तारिहरियः आरण्यम् विवस्ता च रामश्च्यम् परित्येन वा ब्रह्मणावारम् यज्ञायचक्रतुर्लोकान् अग्रे वात्यायन्ते गणानाम् गणपतिरोधरामहे कलिङ्गमत्रवक्षमम् जेष्ठराजम् ब्रह्मणाम् ब्रह्मणः पदहारिभक्तेन साधनम् पविशासजन्मनाथपुत्रेवायम्भरमेधनादिरेतरमाविनाशर्धापनाहविहा ब्रह्मणत्रयम्त्वणेन वनगो जपुरवेणप्रिया यतो दक्षणेक्षरत्वादशेरुदाजरे मरुतवयद्धवो निवो यामशर्म हर्यमायादिभुविष्माम् दातावसूनाम् पुरुभोन् च बाहुरस्मासु देवाद्रविनन्दुर्यमन् महवोदेवयाः पञ्चादोराजम् आचरन्ति एकन्नादेव यषन्नये सिद्धिपदे सञ्चतत्पदे मुद्धारग्रमङ्गिरोपर्वतश्च तिरुम्भिधान्यैरम् विकृत्य स्वामक्षामलैन्द्रक्षकार मध्वारग्रेण विमायमाने प्रसाधपशुपेभ्ये स्वामश्चामलिन्द्रक्षकार त्रयोद्ये विद्वागुम् अत्यवम् संविष्टे ब्रह्म ब्रह्मस्थौ महान् हरे अत्र भागत्यगुम् तत् समाप्तिवञ्छः च सङ्ग्राट त्योदारिमानि दैलाः दिनद्वनम् निपलो दत्तने निकलिकत्व स्याितदत्तेरन्यक्षागं त्रिविरास्तेरण्यदत्यैरादेवानां प्रयदं पङ्क्त हि नमगं पन्तस्य रक्षागं जरास्त्रे भरतोभ्रन्तान् क्लुद्धान् कृतानभिव्योक्षस्य देवादियोगेनोयं प्रियते रक्षागं देवा इमान् भन्ते विषय रक्षाकृत्य वा मनुलयन् दयान्य बृहन्तान् वृणामैय रक्षा गच्छन् समानि रक्षागक्षमन्तं देवान्ते कपालं निरमय विवासवदे कवदेशय कवदे पुनस्था सन्तानितेण प्राणं जयदर्शय विवाधमजयान्यवादितोक्षागत्या सन्तानि तेनव्यचं दय दर्शय प्रत्येकमदयान्यक्षागत्या सन्तानि नामा सुधाय ध्यानव्यमानस्यायता समष्टाङ्गमानं जन्मदय ैक्षय प्रदेकवदैकदक्षय प्रवदय नृपतिगेदा स्वाच्ययां भ्रातुर्यत्थं जय प्रमुदैकदक्षय विभासवदैकेव नृङ्कं जैन विपासैकय प्रदेकवदैकगेवा स्वा पापी यान्तं संभातर्यन्मदचामदिनैनं पापी जानात्मा क्या संयत्तः सन्ते देवाप्रेद्यावत्तमर्थमनुसमानभामहारि ऋत इन्द्रमग्रसम्बन्धेन वेद्यावत्तमो विश्वामनुसमानभा महारियोमहिमार्थम वेद्यामगे नेता नैक्षितावे ग्रोहेच्छयमम् इन्द्रायागुं भौमुचय पुरोणा दुरेकाशयमालं निरवपञ्चिन्द्रायवे मृथाय इन्द्रायै श्रियाव जयगविन्द्रायागुं भौमुचै निरवपञ्चकैनामुच्यं जय इन्द्रायमे वृथाय मृषगेव जैनापायै श्रियावलयिं श्रियमेवकेनात्मन दशत्रयस्त्रिमु सत्कमालं पुरोडा सन्निरवन्त्रयस्त्रिमुद्वै देव ैर्गेन्द्रयो भ्रान्तय जयन्द्रायां भौमजयपद्यायकादर्मन्द्रायवे प्रधानयेन्द्रायम् वागे योगिरिन्द्रायांहज एवतेन मुख्यते याभ्यान्द्रायतेन्द्रायेन्द्रियामद इन्द्रियमेव त्र्यत्रियं सत्कं पुरात्रयस्त्रियं सत्त्वेन र्य एवं विद्वामे यत्रन्द्रियम् येर्यम् प्रजाम् अभवम् अङ्ग्रच्छादाय वक्रम् ज्ञातयत् श्च भविष्यन्ते चिभो यत्सर्वमभिसर्वायुरविभोपा नामो जलमिन्द्रियं हेर्यं प्रजान् वजो न व्यञ्जनयज्ञा यत्र त्याय जयधाय सम्भद्राय पुरोनाय मत्ताकबालव्यवेष्टवमासन्नन्द्रेतोबलमिन्द्रियम् देशम् सदाम् प्रशोन्ध्यातुर्यम् केवलत्यात्मनापयाभ्यातुर्य भवते प्रजावय प्रजा वजदता हत्वा तृष्टा प्रयरायन्तायत्रा वसन्त भावम् प्राज प्रयप्राण्यत्वा प्रजा उपालक्षन्ते गृहं प्रायच्छत्र भवे प्रजाभयं प्रजा उपालक्षन्तयः प्रजागामस्याच्छत्रामेतं प्राजालक्षङ्गात् मुदञ्चलन्य प्रजापतिमेव प्रजान्त प्रजापति यत्रावसन्तं प्रतिष्ठे शिवृगे े च भ्रजे सौत्रायच्छम् पशव पुमालक्षं जयः पशुरामस्याम् सोमा बहुच्छानुजद्वरे सोमा भूषणा देवस्यैनभाग यैमोपधावहिता देवात्मै पशूनम् प्रजयत्त्वाभावे रयतोषा पूषा पशूणाम् प्रजलया दोषयैमास्मे रय सोद त्यादिता गृहेषु नारेत्रायमेषा नोजगपतिः करः कोवर्णेन गृहेषु राज कमत्र नाविण च येन देहा अबुतम् दीर्घस्व निर्जेदयन्त राजस्त्वधत्वमत्वभ्यङ्गवान् कौर्ण्यञ्जीवत्थानस्त्व अज्ञे गृहदे यच्च भागस्य न होद आक्रममाणानिधेयत्रेच्छाः अथवायोजम् भूमध्या भूया संयुक्ताः चित्रयायशुरामयम् वै चित्राय द्वाख्याम् विश्वम् भोक्तमधिप्रजाय देशे नैयञ्चित्राय एवं विश्वायश्चित्रया वसुरामो विलदे प्रजया वधुरं मिथुनेजायत्रैवाज्ञा सौन्येन तथा निरेशगेवहितं स्वकाररूपानिकरों मिथुनं दैर्यमेवास्मै मिथुनम् लभ्यत यदिने बाल्ये जलत्फलदिनाश्व भवेकं शिभवन्ति सप्तग्राञ्जा अशवत्सप्तान्या सप्तगङ्गागत्युपयत्यावध्या चेताहुरेण चेत्यपदयस्त यच्छतामजोयशेन वायिनम् मनायवसम्भृशुम्पृक्ष्यम् उग्रवशत्तमे परिधत्तव्यपत्ति पुरो माता वर्षम् जन्मरावृक्ताः वातावद्वर्षम् उग्रलावृक्ताः कनयन् वर्गम् भीमरादृत्वाोर्जम् यज्ञद्वर्गन् जैलावृक्ताः जलाच्यं वर्षन् गोत्रयावृत्ताः बहुहायमृशाय सुरलावत्रालिवर्षन् जिरादत्राः भक्त्रोर्जं यज्ञर्शन् भूतलादत्वा ेस्तरे सुन्दधे कुसेनाः चित्रभृतः क्षत्रभृतस्वराणि हिमापता षमस्वक्षन्तानमुक्षे कोपनिष्यामि हेवापश्या अज्ञे स्वामसोर्या हेदाशकर्मण्यामित्रा वरुणा त्यादिष्टमस्पन्दम् च पर्जन्येनोदबाधेन आर्यन्दरवक्त्वा उपदत्तम् वृष्टिम् दिवाभ्यत्वम्भितम उल्लम्भयम् जन्तेयम् दिव्य य कृभागाः इव यज्ञमवम् तथ इदम् च क्रमाविशम् तथ इदम् च क्रमनुदिशन्तु मारुमतिपदरामो धिकृत्यं बाधकृतरोषम्परिधक्तमेतस्यैरिष्टे लोकगं कलोक एव भोत्वा्यं परिषयि समयदमरदश्चिनमिति पश्चाद्वातम् एवति पुनपादमेत्यायै वायुमेव चैनस्मै पर्जन्यं वरिषयच्छ नारायणात्मने तदत्मसंकरविसामिग्घगयलोदक्षगृमसंप्रस्य वैनिवर्तता जिनेनय्यव भलदेव आगमन्तल वैजयं्यो चवद्धेय दीनं मध्यमानानां कुंतेर्खा निवलामनते खड्ग्योरा भवन्दे सागुलसंोर्भावरत्ताय गरिणां जयभरण औम्यानि मै कवेलानि भौन्या खलु वा आहुजिवृष्टिञ्चारय भवन्ति भौज्ञैवाभ्यादिवायष्टाक्षपालं वा एव नैवीनाच्यामयत्वस्य सन्धाने कोपनित्यादीत्यान्यकृते भोक्तामरिपजलोकेनैवेन सुसमर्थये रजस्यापलुभ्यै ेवताभिदेवान् ग्रहम् व्यक्मित्यधिकनिरलय तावत् देवः लभ्यङ्गभूतयन् ्या वर्षयम् वर्जन्यं वर्षय समग्रं पालकम् ेवत्यायीवस्ते पद्यं वर्जयन् वितावर्षत्यं चिताभ्यस्तम ैवीवाेता ेत्या मनोहजाक्षकुदृक्षिहाइल कपुभान् हजलेन सर्वाणी चंदेगा यीताध्यक्षनाशे पुरनाश ेवमेव दद्य वृत्यध्यक्षनानि यज्जगत्यापलितध्यानन्द्रम् यज्ञम् गमय दृष्टभापरितधानीन्द्रियम् वैर्वीर्यम् दृष्ट्वेन्द्रियदेव वीर्य यज्ञम् प्रतिष्ठादैनान्तम् गमय च ज्ञेत्रे देवाभित्रेदधस्य निर्दत्यापरितधा विसर्वत्साय सोवादेव ज्योहिरामेध्यो यज्ञप्रयज्यते त्रे धासवीय न यजेताभितरम् सर्वोमादेशयज्ञो यत्रे धासवीयतुं सर्वे नैवेनैयज्ञेनाभितरति कृतगेवेन वेतयैव यजेताभितर्यमान सर्वोभादेशयज्ञो यत्रै धादवीयतु सर्वे नैव यज्ञेन यजसेनभितरम् क्रुधगेतयैव यजेतेन यक्षमाणप्रजातमेवेन ृजनागत्रैः जमीय नैवासृज एवं जित्वागत्य नैगस्वा देवयाने प्रजापोनृजदस्वा देवैनान्त्रिवै नमोत्तर एवं सहस्रन्नमसि देवता द्रौवाय sarastreyo yakshat chuppa yadate iha devah anyade tasambhava vedaiknaya yatrai tanade yagam sarve naivatyana rajadeva dahyam astreya balajagavalapurana svarbhavade asti astrakabala prashadhatta yatrai purana jha vandate ire lokareham lokana mahya uttara uttara adhyayan लोकायमध्य एत्वा अन्तरिक्षस्य लोकगन्धमध्येतन्ते यन्दवद्य संवर्का हिरण्यं ददाशि च एवावरुन्धे भारत्यन्ददा विभोवावरुन्धुन्ददातिशेवावरुन्धयसां नैषवत् नो यत् हिरण्यञ्जषां ताद्यमुक्फणमदानाम् हैण् सर्वानग्नानवरुन्धे पुरोहेन्द्रपुतहवमे पुत्रयदश्चाहवीयमुखप्रावत्तयत्साहेन्द्रप्पदाविध्येव जगदि मातामत्रमेत्य मातावदध्यक्षेताभेत् च्छागच्छायुक्रमभिम् सुन्नाशक्मात फले तर्हि विश्वसन्न कृष्णीनमाहरित्या भोजेन प्रत्ययगन्धा तथा मे निरभ्य क्षमेय प्रत्यगृह्णा रत्ना चन्द्रेन्द्रियं ददाचिलन्द्रैत्रीय मास्थितवा मे प्रहारमा विलम्नेत्राय तत्र प्रत्यगृह्णाय छत्रव्यक्षप्रत्यगृह्णा रत्मा चन्द्र इन्द्रियं दधाति ृदयच्छिरत्वदास्यानि <laughs> ब्दे सन्धारुहे कामेव प्रविशाले जन्मान् प्रतिशय किम्मा भुञ्जामित्यब्दे कामेव भोगाय ताम् प्रविषयमित्यग्रहे संवृत्सम् वेदत्सः क्षुप्मश्चादम् योग एवं वेदहम् विप्रसंसारम् व्यञ्जलस्मे प्रायच्छत्र गृह्णा कर्माधायप्रायच्छत्र प्रत्यगन्धादस्मात् चन्द्रेन्द्रिगन्द्रिगच्छ प्राय तत्र प्रत्यगन्धास्तत्र रङ्गचक्ष्णक्षवे विप्राय तत्र हरित्फलभिगद्वाजिञ्चत स्मेतत्राय चतुष्टामालिम्प्राय छत्र सहस्रदक्षिणम् tena vira dnyana dharmānādana bhagavattvamanta heroṁ samdām nābhogaṁ tadāge topa adhyojayet yatra jandya ratvā heroṁ adhyojayet dr̥ṣṭrām bhikistareṁ kāmaṁ yadā linjamanavādhyoj ब्रह्मति त्यांसुमायम् इन्द्रायम् चितोः इन्द्रादया जनपदाजयाभिः प्रविजयाम् जिवृथिव्यात् पर्यन्तरेक्षाणायन्द्रमजमादिष्णमप्रोदनाय हित्वा सुवर्णो नमो दुग्धाय धै नवः ईशानवर्चलजगदत्वन्द्रवत्सः स्वाविद्य शाकायश्च कालवः स्वाम् नृत्यन्द्रसत्त्व इन्द्रतत्त्वानम् कारः यज्ञाप इन्द्रे सलगुधरम् भ्रोले ऋतस्योः सत्त्वावज्रयम् सहत्रगुम्भ्रोध इहां यन दमनम यत्सायं क्षेत्रसालहयत्पादृहि फौरण भाव त्यागम सुखलोनारम्बा एवदिने नस्तधर्मविन्ते सन्तो देवराजा सुमनपाया धर्मदेवा बुद्धज्ञेयः परविञ्जो जुदाधिचन्द्रसदगन्धत्त्वा हरिः परखेवहं देवसोर्य्या तोऽधिस्कृदमविच्छना प्रस्थान देवा नाम गुणाभयेम सख्रम मित्रस्य वा नत्यात्येह अप्राज्यवा सुग्रीवं दले कृकुम सो व्यानादगरत्सु शक्या विश्वदेवांताम तरसो हवनुस्तुह विरं दायिद्यं बयः विश्वदेवास्त्रम देवां भवन्ध्यय अंतरिक्षेय उपत्य विस्तारा ओश्वरोधये पुरोहितदेवानामासे सत्रे व पुराणान्तस्य त्रे निशेषाम् सुरामानमन्नालमगुंशत्यक्षम् देवलाक्षमसभ्यर्मश्चैव प्रत्यक्षम् भागम् वदं जयस्मा जैवमलाक्षं वदञ्जिलश्च ्रह्म हन्य ब्रह्महत्यायेग्रहा भविष्यन्ति मन्ये ततो मापराभो भगिति पुराजराधिलोभा पृथिव्यैमृथिज्ञैत्रीयम् ब्रह्म हत्याये तस्य ग्रन्थात् सप्पले न श्रद्धादेव ब्रह्म हत्याये चैस्तम पदेशे हे ब्रह्म हत्याये प्रतीगम् प्रतिगण्ठीषे दिशे ब्रुवन्वरम् वृणामहे लक्षणा परा भविष्यम् तामन्यामहे तो, तो, तो मापराभूमे कश्चनाद्वभोयागम् सरस्य तस्मादा कश्चनाद् वृक्षाणाम् भोयागम् सरोप्यक्षन्निवारे ब्रह्महत्याये प्रत्यगन्धान् सैल्या स्वलक्षाञ्जल्या सच्चाक्षम् े राजमुपादये तृतीयं प्रतिगृह्णे चिताभ्रुवन्वरं प्रजां विन्दामहे काममाभिजयिभां विन्दं जय काममाभिजय सम्भवं विमारत्यासां तृतीयं ब्रह्महत्याये प्रत्यग्रन्थान् न्नमत्याये क्लेशान्नं प्रजमुच्छास्ते स्वभ्यञ्च नावन्नमभ्यञ्च न देवनप्रदेक्ष्यन्ता मन्य फलवद्वासज सम्भवन्त्रौजाय तेष्वाभितत्त्वयामरञ्जेतया स्याभ्यङ्गेवस्यै दुत्कर्मायात्तस्यै खलतिरपारीलाञ्चस्यै बालो या दतो धामदेतस्य ग्रामशनिना न काङ्गस्यैकेयालं चकौ धितस्या वृद्रंश गौया वन्देन विभलितस्याेण विभजितस्यै घर्मत्रेण वामिवर्वेण भापात्रेण प्रजाये हतपुत्रेन्द्रगं च ममा हरञ्जन्द्र उपहतमयेत्रे मध्ये त्यश्यदयत्वमुदप्रारत्वाहेन्द्रवर्धस्य वेदमर्थयत्रभत्रश्च वृत्तत्सङ्गब्धे त्वाहेन्द्रुरुवर्धस्य हितस्मादस्य शत्रुरभवत्ते धर्मा भिमात्रिष्पन्नवद्भीकानवृणा श्च वत्रत्वादिन्द्राविषयप्रजाभ्युपाधावक्षत्रर्मे जने विज्रगुङ्क्त्वायश्च जय तैल जये विशैलाभ्यायलाभ्रोदामज्ञेषाञ्च वै जग्रक्षयित्य क्त वेद्वादशक्रुरायन्द्र आत्मनश्चेतदोरावजनयत् पश्चेतदोरया जन्मय एव कुशेतदोरया जन्मदलेन कौशेतदोरताध्यानेन अभ्यनयत्तमानाभ्यमानाध्ये रक्षामदा क्षकृप्तास्पन्धत्य सर्वमायुरे नभ्यों नमः शैरभ्यं विवाहेण नमः अमावायान्तय पुनरध्यायध अब्रोदान् जावात्र अब्रोदाम् परं प्रणामहै नक्षत्रभिः दाहवदाने यथा यत्रभिः दाह विधेयं सत् क्षत्रभिः पातो मित्रभिः देयं जयमास्यां पदा व्यक्षविन्द्रवृत्रमहन्ते देवालक्षगु महत्त्वा ज्ञे दा माभ्रुवनहर्यन्नामह सितामद्रोदामैद्यो दृत्रे वैत्युवमक्षै गोरिच्य ब्रुवङ्गौर्वापधम् भयेन भुञ्चत एतद्वाज्ञायद्वया जय महज्ञेद्रह्मवाजिना निज प्राजा वक्षमिज ब्रोधाच्छम् पुत्रम् विरमासायि निरस्ता ज्येष्ठम् पुत्रम् धनेन विरमसायन्ति ृत्रावशगैतं को नमासयते नयत्रे मृतः को नमासयतिमृथगेवकेन हताभितमाज्ञ काकपालनमावाख्यायामवक्षयेन्द्रन्दवभ्येन वेद देवताः श्रेन्द्रियं चाबालं जगताः ज्ञेया काकपालो मावात्यायां भवत्येन्द्रन्देवताश्चैव दे नेन्द्रियं जमानो बलं जगेन्द्रस्य वृत्तं जग्रगेन्द्रियं वेज्यं पृथिवेवलं चाक्षतो यो वेदस्वभवन् प्रजापयनुपाभावद्भुप्रे जद्वग इन्द्रियम् जेर्यम् पृथगेव्या रक्तदोजयो भेदस्वभो पन्यप्रजाप यत्पशो न प्रये भेदै सन्नयते जित्पशोषेद्राध्यात्मान् ति दुःखं गमने भक्तस्य दुःखं नीश्वग्रवे वेददस्मै दुतं कुरु चेद्रवे तदस्मै दि नयम् अच्छदश्च दत्तम् गमने भक्तस्य दुःखं च समकं समाभि चन्द्रवे वेददस्मै सिगुरु चे तरस्मै तभ्य मुरुभन्तरेण तद्वान् ्रह्मवाचिना वदन्ति देवोर्वं प्रयदयेत्येवत्यावज्यैन्द्रियदेवाख्यन्दे यज्ञा दो वरिष्टाध्यो त्वमुपै जयतीर्वान् न भेर्वाचण्यं च व्यक्पेहाक्षरं च ध्यर्थम् द्वैर्वैरेष्वेवम् च जयपतात्रैतमे प्रथमो निन्दलि तस्य प्रथमम् भागितं स्यां प्रत्यागच्छ देवाभितमगच्छन्तान्द्रोहि देवानां वसुतनमालास्यायामाच्यत्वं ब्रह्मदादि मा जयमखिलमगच्छम् चेत्यो जातेन्द्रम् रामजयक्षियजन्दम् बाभिलमगच्छन् चेति ब्रह्मवाजिना वदन्ति सत्त्वे दलशवो न मातो यजयशेन जेन्द्रौ यजय जय शिवै वधः पूर्णमा जैमनुर्भात्य भवर्णमादत्यैन्द्र हैन्द्यमाभात्या यान्ते न माभात्या चैन्द्राय एवं नितान्दशवोन्नमातो यज देवेन्द्रा देवेनो यज भेश्व जगमानगुङ्करै जलगुं सरस्वदे जलं पौर्णमाटगुम् नैव लभ्यं चालुर्याय प्रवृत्त्याज्ञा वैज्ञास्ते यं च ध्यालयश्च विपुनान् प्रन्तार्यानुवास्यां वृन्दे पूर्णमासे नैवय जय लब्ध्यागं हस्तामभ्यालुर्यन्नात्यायेन ृत्यै महतान् दुप्तेवैरविन्द्रजयानुभाेणोर्षमोर्जैवात्मारोषव जयदत्रयोगे गतस्य यत्र गृहान् राजन्यत्रेतां महेन्द्र देवतायोगे पां देवतामवेदेवतायैत्यं भवतिपरविन्द्रय जयत्सवङ्गीनं देवदे ैवम् च ज्ञमागन्धमज्ञाम्येपा मया हे सन्नयेतनागम् वामेतस्य परियोगो स्वामयाधीयतमयाजी सन्नये परिमोदेव सोमयाच्येव सन्नये सोमप्रयत्सान् नार्यम् वय सैवमय आत्मम् सत्यै विहायम् प्रजया पशुभिरब्धयति वर्धयत्य चभ्यासम् व्यङ्गस्य हयन्यरक्षम् पुरताः जनयति वृद्धान्द्रयच्छति यज्ञा विज्ञे प्रेष्ठया सम्प्रतिगे सोत्तरया संवर्याद्यया सम्प्रतिगेर्मया संवर्या नेभवैलमुक्षलो जागतये कामेव विजय प्रगब्धोच्चागते नाश्चे एव विजयमुखमेव बोर्मया लेविमुत्तरया देवता एव गोर्मया न्द्रयन्द्रियमुत्तरया एव लोकमेवक्ति मेवास्त्री लोकेऽकम् भवति साक्षायण नित्येन सुमो येन पूर्णमा चेदन्धरे Bye-bye. ध्यावृत्तामये जय हित्येन कुण्या माभवधिप्रवायशेतश्चैतद्वन्धानिसंवधेन्न मा कुन्द्रमस्ते यान्नपल्कोलने न मातः पल्कोलये एवं विशपोर्णमासो विज देतामेव सुभर्गं लोकमनवश्चेवानां विक्रान् यद्दर्शपोर्णमासो य एवं वेतां दर्शपोर्णमासो विजते देवानामेव विक्रान् शपोर्णमासोज एवं विश्राञ्चलशपोर्णमासो यिन देहदेव देवर्कनुसमानो महक्षेतोना कुम्भजी यज्जलशपोर्णमासो यं विश्रान्तलशपोर्णमासो येनादेवदेवाना कुम्भदिभ्यदेवेभ्यो हव्यं महक्षेपद्वै देवानामात्यं यत्कलशमोर्णमासो ये devak dari saborn namaso yadate raksha deva deva namah ksheyo kesaveha त्यहृत्यम् दत्तं भवति देवासवोर्णहापुलं तौ माशतौ मे दर्शपोर्णमासौ जय गोताौ क्ष्मः तद्रा नक्ष्मः जन्मयक्त्वा भवत्तक्ष्मद्वय ध्यायाभ्यामविन्द्रध्याये एव मेदैकायक्ष्मानाञ्चमवेदनैर मेतेष्माविन्दम् कृतगेते एव न भक्चन्मपाभक्ते अब्रूताम् फलं वृणामः भागता भाग अप्ने मनुष्या भवन्ति एवं वेतभूता हि कृतमज्ञानम् अत्यमनुष्या अर्थमासे देवा मासितरम् वत्फले मनस्पदयत्तसः धर्मनिष्ठा असममिच्छन्ते अर्थमासे देवा निज्यन्ते मासिदभ्यः क्रियते संवत्फले मनस्पदयः फलम् गृह्णन्ते एवम् मे अहम् त्रयं जलेन सामन्नेवास्त्रयं सहिङ्करोमेवाङ्कराङ्करोहत्रोत्तमान् यज्ञायन्त हत्राना यं <ísim> लोकानभिषे लोको नैवज्ञमेव प्रजापयिमानफलं a uh -huh. प्रियं <Sessly> प्रायेभ्यासव्यम एव एतायं यथा संयप्राप्य प्रजयावध्यमानश्च विषक्षं तथा च संयक्षयवै नास्ता संयुक्ता सर्वासिक्रे वा वेकजगित्याह सङ्गलक्लेशवन् न तन्त्रामित्येव निरीत्या लोकादित्यन्तं <laughs> वेदपञ्चदशमादशतमार्थमासत्यधात्रमा ्रह्मलाद्यमवस्त्र <imitation> यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परायणाय परिपाश्रयेत् नोनां भूमिसाभिषेलेना मे लाभं वर्णं लेवेत् प्रयेच्य प्रयेच्य तदमनोच्छलेना राणिमन् नत्तमत्रामिद्धिरिक्षः हलादशैने त्रि अक्षय नयतौ प्रजापतिं पत्यमे प्रजापति दोषं प्रेमय ैवं त्यादगं संदेहान्तव्यवाहनमित्याहयेव देवाणेतां गृहे वने सन्तो a ्रह्मजनुषित्याह ब्रह्मजनुषित्याहुतज्ञानानित्याहे त्याहजेवान इत्याह जनोक्षे से भवान् लोकुञ्जमानो देवानो या रामः देवां देवय ते यमानाय विद्धादुल्यमत्ते जनये रामः देवान् त्याहाग्निग्रस्येभ्यं महक्षग्रहो देत्याः मे देवान कुम्भोदायैव देवान कुम्भोदातं व्यमे दयात्मा वयमित्याहात्मानमे पदत्र त्याजमानने भक्त्या भक्त्या भवतु ग yeah. yeah. त्यद्वास्त्रिगुंशरक्षदा नष्टमनतां प्रष्टा प्रदक्षे कत्रिगुंशनव्रोया श्वकामस्य क्षत्रिगुंशरक्षदायतावलन्ध्यतश्चत्वारिगुंशमनव्रोयादिन्द्रियकामस्य चतश्चत्वायगुशलक्षरात् तृप्तन्द्रिय चत्वभैवात्माविन्द्रियमवलन्ध्यो ुकामत्यागक्रराजकेशासनात्मतबोधयैलात्रे भगवनवरन्धे सर्वाभिषन्धागच्छनव्योजात् बहुयाचिनः सर्वाभिचन्धा गच्छवधानिया बहुयाच्चपनव्योजात परमिदत्यावलये देवा नुभवेदं देवानामुपजयते देव लक्ष्मणेव दत्त्वन्दातु लोकस्याभिज्यायैव लोकेन यत्रौच्यवन्ताः पुरन्तजन्मन्दुरन्तजनन्तं सदाय टूना अधास्पान दना त्टाप्धाना � 벤ावक्ष्यन अंधरगैश्जन अस्वाद भुवदिवगैश्जन ओ�есяर अन्मिधिस्वाद नियरके पसाम ड़ूगो हालातो भुदो सत्यं वद धर्मं चर वन्दे सो पाहिलेन चैव वन्दे चावन्धे सो राम जयति शिवम जयosarन्यागच्छ अवृन्धे भवदेव भव कन्देव मनचलाकं प्राभिजे देवो वै रामेणे नमोस्तु मानववचानन्तं परावरत्तो चेव धारम आधाररत्तो भवेत् दैवीच्च मनववचरेत्तो चेव धारम आधारेष्यच्छा मुखार्ज्याहोदाङ्गैरेवार्त्यक्तो स्वभावेदिरेवं देदाफलत्त्येवै नारत्त्वेन प्रज्ञावदधर्मेवं देकनासारजे देकान्त्रिशाचत्वा ्रवे जै प्रजामयम् रक्तमे भागम् प्रजापदूते मनसो ध्याय क्षिणाध्यन्तयोगेनैव <Sessly> लोकादेव लोकानेवान् विजयविद्वादश सम्पद्यम् च लोकस्य समक्षमाधारयतिकस्तु भर्गमेवा जोड़क दाव पहर्टेजें कावयरत रवाड़क चाज़ि जिम्हं दप्चागार ये ताने वार्स्मार जिम्हन ये ताज़क्रमिय तेजि दोवार येरत चेज़ सिकचागार आत्मार गुपागार वाधारियत दुबागू समनक्चाग्पन्नेव एक्ज़ियत अप् प्रजापदत्रा देश्यग्रोहे देदं च वाद्रवे रक्षेमो I'm going to get my number. number. राजे नारायण कृष्ण केव देव माता नामवरं थे तनो नपा जय नय यज्ञ लेवा वरं हरिवाज जतिसु देव नमो येतु भजकर नप पर नर चले हरि हरि ने देवदेवै विना नाम कंठा भक्ते देव परिलक्ष्य सारार्य निधि सुहस देव प्रजया वधुरं निपुनैर्जायते भक्तेनमिव निभक्तेनमिव निजानाम् निपुनञ्च जय عاذًا لنفار هنا يا जाइज्या मनुष्चा वित्वता रुभादिन वदंजिकें तत्गेट्चे इजमार्यकुर्टेजे नाद्यतो जच्च भजों जाधारो भयतो जच्च अप्श्च मनोड्चार्च फागत्च जुगाने नईजदिक्ने नाद्यतो जोंड़ार्यक्स अविचर्च भा जलायञ्च पश्यन्तं भगन्धेन्द्रायध्यस्तरे नमः गुरुभ्यः गपहाः प्रायित्यवरक्भवो ऋच्छप्रयस्य हाः स्वर्णभास्वत्त्ववत्त्ये रमवा ऋच्छमयत्तारभेण हस्ताद्वारक्यं वक्कत्त्वा गन्तरे रमवाणि गपालान् जयतु जयति नामदत्तोदासा नमस्कुरु लोके देवे इजो देव दत्त them there